श्रीमद्भागवत् महापुराणं दशमस्कन्ध त्रयशीतितमोऽध्यायः द्वे आदाय व्यसृजन् केचि सज्जं कर्तुमनीश्वराः आकोटिजां समुद्रस्य पेतुरेके मुनाहताः सज्जं कृत्वा परे वीरा मा गृताम्बषु चेदिपाः भीमो दुर्योधनः कर्णो नान्विन्दं तदुवस्थितं मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदुवस्थितिं पार्थो यत्तोच यद्वाणं नाच्छिनन्तस्पृशे परम् राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु भगवान् धनुरादाय सज्जं कृत्वा थलीलया तस्मिन् सन्धाय विशुकं मत्स्य वीक्ष्य सुखिज्जले छित्त्वे शुणापाति यत्तं सूर्ये चाभिजिति स्थिते द्विविदुन्दुभ्यो ने दुर्जे शब्दयुता भवे देवाश्च कुसुमासाराण्मुचर्हर्षविह्वलाः रजरङ्गमाविषहं विषमहं पद्भ्यां प्रागृह्य कनुको जलरत्नमालां नूत्ने विनी नूत्ने निवीय परिधाय च कौशिकाग्र्यं सवीडहासभदनाकबरीधिश्रक उन्नीय वक्त्रं मुरुकुन्तलकुण्डलत्विं गण्डस्थलं शिशिरः शुकटाक्षमोक्षे राज्ञो निरीक्षपरितशनकैर्मुरारे रंसेनुरक्तहृदया निददेशमालाम् तावन्मृदङ्गपटः शङ्खभेर्या न कादयः निनेदुर्नतं नर्तक्यो नृतुर्गायका जगुः भगवति भगवती मयेषप यूथपाः न सेहिरेयाज्ञसेदि स्पर्धन्तो हृद्ययातुराः मां तावद्रथामारोप्य हैरत्नचतुष्टयं सार्गमुद्यम्यसन्नद्ध तस्था वाजौ चतुर्भुजः दारुकश्चोदयामाश काञ्चनोपस्करं रथं मिशतां भूभृजां राज्ञी मृगालां तेऽन्वयं सद्यन्तराजन्यां निषेद्धोपथिके च संयत्ता उद्धृति स्वासां ग्रामसिंहायथा हरिम् ते सार्गचितमाणौघै कृद्दबाह्वङ्घ्रिकन्धराः नृपेतु प्रधने केचिके सन्त्यज्य दुद्रुः ततः पुरीं यदुपरीरद्यलङ्कृतां दविच्छन्दध्वं पटचित्रतोरणां कुतस्थलिं द्विभुवे च विसंसृतां समाविशद्धरणैरिव सुकेतनं पिता मे पूजयामास सुसम्बन्धिमान्धवान् महार्वासोऽलङ्कारै शय्यासन् परिच्छदये दासीभिः सर्वसम्पद्भिर्भटे भरथवाजिभिः आयुधानि महार्हाणि तदौ पूर्णस्य भक्तितः आत्मा रामस्य तं सेमा वयं वै गृहतासिकाः सर्वसङ्गनिवृत्याद्धा तपसा च बभूमिमा महि शोचुः निहत्य सगुणं यदि तेन रुद्धा ज्ञात्वा स न जितराजकन्याः निर्मुच्य संस्कृतिविमोक्षमनुस्मरन्ति पादाम्बुजं परिणिनाय य आप्तकामं न वयं साधुसाम्राज्यं सा राज्यं भोज्यमप्युत नैराज्यं पारमेष्ठ्यं च अनन्त्यं वा हरे पदं कामयामः एतस्य श्रीमत्पादरजश्रिय कुञ्च कुङ्कुमगन्धाज्ञं वध्नावोढुं व्यदाभृतः प्रजास्त्रियो यद्वाञ्छन्ते पुलिन्द्यस्त्रेण विरुध गावश्चारयतो गोपादस्परसंहात्मनः ते श्रीमद्भागवते महापुराणे पारभ्यां चयितायां दशमस्कन्धे उत्रार्थे त्रयसीति तमोऽध्यायः